हरि ओम् श्री सीता रामचन्द्राभ्ये अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे चतुश्चत्वारिंशर्गः रात्रौ रक्षतां च घोरं युद्धम् अङ्गदेन इन्द्रजित् पराजयो माया तु अदृश्यमानेन इन्द्रजिता श्रीरामलक्ष्मणयो नागपाशेर्बन्धनम् योध्यतामेव तेषां तु कदा वा नरराक्षसाम् रविरस्तं गतो रात्री प्रवृत्ता प्राणहारिणी अन्योन्यम् बद्धवैराणाम् घोराणां जयमिच्छताम् सम्प्रवृत्तम् निशायुद्धम् तदा वा नर राक्षसाम् राक्षसोऽसीति हरियो वा राक्षसः अन्योन्यम् तुमरे जग्नु तस्मिन् तमसि दारुणे कथय चैहीति कथं विद्रवसीति च एवं स्वतुमलं शब्द तस्मिन् सैन्ये तु काला काञ्चन तस्मिन् तमसि राक्षसाः सम्प्रदुष्यन्त शैलेन्द्रः दीप्तो तस्मिन् तमसि दुष्पारे क्षसः क्रोधमूर्छितः परिपेतु महवेग भक्षयन्त परङ्गमन् तैहयान् काञ्चना पीडान् त्वया चा श्रीविशोपमरम् आप्लुत्य भीमकोपा व्यदारयन् वानर बलिनो युद्धे क्षोभयन् द्राक्षीं च कुञ्जरान् कुञ्जरारोहान् पताक् धजिनो रथान् चक्षुश्च ददंशुश्च दशनै क्रोधमुत्सिता लक्ष्मणैश्चापि रामैश्च शरीराशिविशोपमयि दृश्या दृश्या निरक्षासि प्रवराणि निजनतु तुरङ्गै कुरविध्वरथने समुत्थितं रुरोधे कर्णनेत्राणि युध्यतां धरणी रजः वर्तमाने तथा घोरे संग्रामे लो मर्षणे रुधिरौघा महघोरा नद्य तत्र विश्रु ततो भेरी मृदङ्गानां पणवानां च निस्वनः शङ्खनैमि सनोन्मिश्रम्बभूवाद्भुतोपम तानां सनमानाम् राक्षसानां च निनः शस्त्राणां वानराणां च सम्भूवात्र दारुणः अतैर्वानरमुख्य च शक्ति शूल परश्व नियतैः पर्वताकारे राक्षसै कामरूपे भी शस्त्रपुष्पोपहार च तत्रा युद्ध दुर्नेया दुर्निवेशा शोणिता सर्वकर्दमः सा बभूव निशाक्षस हरिणी कालरात्रिव भूतानां सर्वेषां दुरतिक्रम ततस्ते राक्षस तत्र तस्मिन् तमसि दारुणे राममैवाभ्यवर्तन्त क्रुद्धानामपि गर्जताम् उद्भक्तव सप्तानां समुद्राणाम् अभुत्सनः तेषां रामाश्वरे षड्भि षड्झघन् निशाचरन् निमेषान्तर्मात्रेण श्रेरग्ने शिखोपमै यज्ञशत्रु चतुर्दशो महापार्श्व महोदरो वज्रदंश्रो महाकाय शौचो भवशुकसारणो सेतुरामेण बाणोघैः सर्वमर्मसुताडितः युद्धादप्रतास्तत्र सावशेषायुषो भवन् निशान्तरमात्रेण घोरै अग्निशिखोपमयि दिशश्चकार विमला पदिशश्च महारथः ये त्वन्ये राक्षस वीरय रमस्याभिमुखे स्थिता तेऽपि नश्चासमासा पतङ्गकम् सुवर्णपुङ्खैविशिखै सम्पदद्भिः समन्ततः बभूव ऋजिने चित्रा कद्योतैव शारदी राक्षसानाम् च निनदयि वेरीणां चैव निस्वने स बभूव निशाघोर भूय घोरतर भवेत् तेन शब्देन महताय प्रवृद्धेन समन्ततः श्रीकोटाय कन्दरकिरण्याहर दिवाचरः गोलाङ्गोला महाकाय तमसः तुल्यवर्चतः सम्परिष्वज्य बाहुभ्यां भक्षयन् रजने चरन, अंगद अङ्गदतोरणे शत्रुन् नियन्तुम् समुपस्थित रावणीं निजगानाशु सारथिं च हयानपि इन्द्रजितो रथम् त्यक्त्वा हताशु हतसारथिः अङ्गदेन महत्यस्त तत्रैवान्तरधीयत तत्कर्मवालिपुत्रस्य सर्वे देवासहर्षिभिः तुष्टु पूजनार्हस्य तोचो भव रामलक्ष्मणौ प्रभावं सर्वभूतानि विधुरेन्द्रे जितो युधि ततस्ते तम् आत्मानम् तुष्टा प्रदर्शितं तत् प्रदृष्टा कपयः स सुग्रीव विभीषणः साधु साध्वीति नैर् दृष्ट्वा निर्जितो भीमकर्मण संयुगेवालिपुत्रेण क्रोधं चक्रे सुदारुणम् सुन्दर्धने गत प्रापु रामणी ऋणकर्चितः ब्रह्मदत्तरो वीरो रामणी क्रोधमूर्छितः अदृश्यो निशितान्बाणाम् मोचायश निभच्छतः रामं च लक्ष्मणं चैव घोरैर्नागमये शरी बिभेदे समरे क्रुद्धे सर्वगात्रे सुरक्षसे मायया संवृत तत्र मोहयन् राघवो युधि अदृश्च सर्वभूतानां कूटयोधीनिशाचर बबन्ध चरबन्धेन भ्रातरौ रामलक्ष्मणौ तौ तेन पुरुष व्याघ्रौ सा भी हतौ वीर तदा प्रेक्षन् दवानराय प्रकाशरूप यदा न शक्ते सौ बाधितुं राक्षस राजपुत्रय मायां प्रयोक्तुं समुपाजगमय प्रबन्ध युद्धकाण्डे चतो चतुः चत्वारिंशत् सर्गे श्रीसीतारामचन्द्र प्रणमस्तु